इमं नो यज्ञम् विहमेजोढस्वास्यमोहरिवो मेदिनन्त्वा आयुष्यम् वर्तस्यम् राजस्पोषमोज्झीतम् इदम् हिरन्नम् वर्तस्वैद्राजादि उच्चैर्वाजिप्रेतनाशात्सभासाहम् धनम् जयम् सर्वाः समग्रारुद्ध्याजो हिरन्येऽस्मिन् समाहिताः सुनमहम् हिरण्यस्य पितर्माणेव जग्रह तेन माम् सूर्यत्वचमकारम् पूरुषप्रियम् सम्राजम् च विराजम् च लक्ष्मीराष्ट्रस्य जामुखेतजामामिन्धसंसृज अर्णे प्रजातम्भर्यमृतम् यज्ञे अधिमत्येषु यद्वेदसयितेन मर्हतिजलामृत्युर्भावधिजो विभक्ति यद्वेदराजावरु नो यदु देवी सरस्वती इन्द्रो यद्वृत्प्रभावे ध तम् नेवच्च सायुषे न लद्रक्षांसिमपि शासाश्च नेवानामोजः प्रथमगम् ये एतत् यो विभक्ति दाक्षायनायिरण्यं स देवेषु गृणते दीर्घमायुः समानुष्येषु गृण्वे ृदाब्रङ्गाक्षायणा हिरण्यम् सदानीकाय सुमनस्य माना अन्नाब्रामि सदसारदायायुष्मान् जरदश्चर्यथा सत् धृता दुर्लब्धम् मधुमत् सुवर्णम् धनम् जयम् धरुणम् धारविष्णो गृणक्षपत्नानुधरांश्च कण्वदारोह माम् महते सौभागाय प्रियम् मा कुरु देवेषु प्रियम् राजसु मा कुरु प्रियम् विश्वेषु गोत्रेषु महीधेहि रुचारूच्येन विराजति सूर्यो येन विराजति विराज्ये यै विराजतितेनास्मान्द्रम् हेविराजसमिधम् कुरु दासीन्नो ददासीत् तदा हीर्नासीद्रजो नो व्यो मापरोयत् किमा भारेभुभकस्य सम्पन्नम् कि भक्तिमासीद्गहनङ्गभीरम् न प्रत्यरासीदमृतन्नदर्शिनरात्याह आसीत्प्रकेदः तस्माद्धान्यन्न परः किञ्चना स तमासीत्तमासा गृहमग्रे रचेतम् सलिलम् सर्वमालिनम्नाभ्यपीहितम् यदासीत्तपन्माहिनाजायतैकम् मर्तदग्रे समावर्तताधिमनः सोरेत प्रथमम् यदासीत् सदो बन्धुमसाति निरान्दम् हृदयकृतीष्याः कवयो मनीषा यगश्चिनोपिततो रस्मिरे ोधा आसन् महिमाना आसन् स्वधा अवस्तात्त्रयादिफलस्ताज को अध्वे सक इह प्रवो च कुतः जाता कुत इयम् विसृष्टिः अर्वाद्यवा अस्य विसर्जनेनाथ को वे जयत आ बभूव र्यत आ बभूव यदि वा दे यदिवान यो अस्याध्यक्षः परमे व्यो मांसो अङ्ग्लवेदय दीवानवेद यो यज्ञो विश्वतस्तन्दोभिस्तदयेक सतम् देवकर्मेभिराजतः इमेवायन्दितरो य आयः प्रमयापरभये या सेतन्येनम् दनदगो क्रीडत्य भुवान् वितर्के अधिनाके अस्मिन् इमे मयो काबुकासेतुरोसदः सामानि चक्रस्तस धान्यो तवे आसीत्प्रमागम् निदानवाद्यम् किमासीत् परिधिक्कासीत् छन्दः किमासीत्प्रमोघम् किमुक्तम् यद्देवादेवमयजन्त विश्वे अग्नेर्गायत्या भवत्स योष्णिहया सवितासम् बभूव अनृष्टुभासो माहस्वान् बृहस्पतेर्बृहती वाचमावत् विरान्मित्रावलूनयोरभिः श्रीरिन्द्रस्य दृष्टुभिगभागोऽन्नाः विश्वान् देवाञ्जगत्या वी मे सद न चागर्भर्षयो मनुष्याः प्रेते नर्षाजो मनुष्या यज्ञे जाते पितरो नः पुराणे पश्यन् मन्ये मनसा चक्ष सा तान्य इमम् यज्ञमय जन्तपूर्वे सह पूर्वे गाम् बन्था मनुरस्य धीरा अन्वालेभिरे रच्यो न रश्मि अप्रा च इन्द्रविश्वामित्रा न पापा च अभिभूतेऽनुदस्व अपो दीः चो अपाशूरा धरा यथा तव ङ्गयवामन्तो यवन् यद्यथापूर्वम् वियूय इहैहैराङ्गो जनानि सूर्यर्सुदा जातमस्ति नो दश्रवो विविते सङ्गमेषु क्रम्यन्त इन्द्रम् सख्यायभिप्रास्वायन्तोषणम् भाजयन् वा सुरे दिपिपानासु भस्पदीन्द्रम् कर्म स्वागतम् पुत्रमेव पितराः भस्विनोभेन्द्रामधुः काव्यैर्दम् धनाभिः यत्सुरामम् व्यपि भस्तेभिः सरस्वती त्वामघवन्नभिष्ण इन्द्रः सुत्रामास्व वामो विश्वमृको भवतु विश्वमेदाः बाधानेषो अभयम् गृणोतु सुवीर्यस्य मद यस्याम तस्य भयम् सुमदौ यज्ञ यस्यापि भद्रेदो मरसे सुत्रा मा स्वभामिन्द्रो अस्मे आदाचिद्वेडः स्व न दुर्यो योतु ईजानमिद्योर्घोदारुरीजानम् भूमिरभिप्रभूषणि ईजानम् देवावश्विनाव सुम्नैरवर्धताम् आवाम् मित्रावरुणाधारयक्षी जीतुसुम्ने वित्पदा युवा प्राणाय सख्यैरविश्याम रक्षसाः अधाः चिन्नु यद्दिधीषामहे वामभिप्रियम् रे पुनः पच्यमानाः यद्वान्वायत्पुष्यजरेनः संवाहारन्नकीलस्य मघानि सा भन्यो आसुरसूय दद्यो त्वम् विश्वे वरुणासि राजा मूर्धारथस्य च कन्नैतापतेन सान्द्रकृक् अस्मिन् श्रे एतच्छतान् हन्दिवीरान् अवोर्मा यद्धात्तनोष्व प्रियासो यज्ञया सर्वा युवार्हि माराजीर्विचेतसाद्यो न भो व्यक्पजा साबुभूतनि अवप्रियादि तिष्ठ न सूनो लिलितरश्मिभिः युवाम् यदा नः कणो गजन्ती नृमेधस्तत्रे अम्भासः सुमेधस्त त्रे अम्भासः प्रोश्वस्मि पुरो रथमिन्द्रायसुषमर्चत अधिके हेजितुलोककृत्सङ्गे समत्सो वृत्रहास्माकम् अधिभन्दामन्यकेनाम् जाता अधिगन्नासु म् सिन्धो ग्रवासु यो धरातो अहम् नहिम् शत्रुनिन्द्रजज्ञिते विश्वम् पुष्यसि वा परिष्पजामहे न भामन्यकेशाहञ्चाका अधितम् विशु विश्वा अरातयोर्यो न सन्तनो धियाः भस्तासिष कामे भजम् यो न इन्द्रजिघाम् सदि याते रातिर्दतिर्वसुनभन्तामन्यकेषाम् जाका अधिथन्वसु यो न इन्द्राभितो जनो आवृकायुरादिदे सति बहस्पतम् यो न इन्द्राभिदासनिशनाःभिर्य निष्ट्याः अबलस्य बलम् निरमयीमद्यो न धर्मनानभन्तामन्यकेषाञ्चाकाधिसन्वसु अयमिन्द्रत्वायवत्सहे त्वमारभामहे ृतस्य न पथा न याति विश्वानि दुरिताहन्नामन्यकेषाकाधि अस्मभ्यम् स्वमिन्द्रताम् व्यक्षया दोहते प्रतिपरम् दरिद्रे अच्छिद्रोध्ने सहस्रधारापयसापनीयोः उभे यदिन्द्ररोदसी आपप्रादोषायैव महान्तन्तामहीनाम् सम्राजम् दर्शनीना देवी जनित्र्यलीजनर्भद्रा जनित्र्यलीजनतिर् अवस्मदुर्गणा यतोमर्तश्च तनुः स्थिरम् धस्मदन्तजो अस्मा आदिदे सति देवी जनित्यजी जनत् भद्रा जनित्यजी जनत् अमत्याभिर्भतीर्णो विश्वश्चन्द्रामित्रहन्न सती विश्वक्रधो नुहेन्द्रविश्वाभिरोधिभिर्देवी जनित्यजी जनत् भद्रा जनित्यजी जनत् अवयत्वम् स जग्रदमिन्द्रविश्वानिधोनुषे वयिन्न शुम्पते स चासहस्विनीभिरोधिभिर्देवी जनित्र्यजी जनति भद्रा जनित्र्यजी जनति अपशेदायिवाभितो विश्वः पतन्तु निज्यमाः ूर्वायि वदन्त भोजा अस्मदे ददुर्मतिर्देवी जनित्यजी जनद्भद्रा जनित्र्यजी जनति दीर्घम् अजम् गृहम् यथा सत्यम् विभर्जिमन्तु महत् पूर्वे नमघमन्पदाजो भजान्यथायमो देवी जनित्र्यजी जनद्भद्रा जनित्र्यजी जनति न गिर्देवा विनीमसि न किरायोपजामसि मन्द्रश्रुत्यम् चरामसि अक्षेभिरपि कक्षेऽभिरभिरम् लभामहे यस्मिन् वृक्षे रूपलासे देवैः संविवादे यमः अत्रा नो विस्पतिः पिता प्राणानुवेन सरन्तम् पापया भुजा असूयन्नभ्यजागतम् तस्मा असृतयम् पुनः यम् को मारनभ्रथमचक्रम्मनसा कृणोः एकेषासि यङ्को मानः प्रावर्तयो रथम् विप्रेभ्यस्पति तम् सामानप्रावर्तजमिदो नाव्याहीतम् कः को मानमाजलयद्रथम् को निरावर्तयत् कस्वित्र तद्यनोऽ ब्रूजादनुदेयी यथा भवत् यथादेयी ततो अग्रामजायत पुरस्ताद् पश्चान्निरजानम् कृतम् इदम् यमस्य साधारम् देवमानम् यदुच्यते यमस्य धम्यते नाडीरजम् गीर्भिः परिष्कृतः एषा अग्निम् केशीविषम् केशीबीभर्ति रोदसी केचीविश्वम् सदृशे केचीदम् ज्योतिरुच्यते पुन यो पादरशना विशङ्गा वसते मला पातस्यानुद्राजिम् यन्ति यद्धेवासो अभीक्षत उन्मादिता मौने येन वाधा आदस्तिमा ीलेदस्माकम् यूयम् मत्तासो अभिपश्यत अन्तरिक्षेण पतति विश्वारूपा वचाकर्षत् पुण्यदेवस्य देवस्य देवस्य दोगत्याय सखाहिदः पादस्या स्वोपायोः सखातो देवे शीतो मुनीः उभौ स मुद्रावाक्षे जियश्च पूर्वभूतापरः असरसाम् गन्धर्वाणाम् मृगाणाम् चरने चरन् केशीकेदस्य विद्वान् सखा स्वाधर्मदिन्दयुरस्मा उपाम तिनष्टिष्मागुन पात्रेण धृत्वेनाबीवत्सः उददेवा अपहितम् देवापुन्न यथा पुनः उदाकश्च देवादेवा जीव यथा पुनः वाविभौ वातो वात आ सिन्धो रापरावताः रक्षम् ते अन्य आवादुपरान्यो वाद्रपाः आवाद वाहि भेषजम् विवात वाहि यद्रपाः त्वम् हि विश्वभेषाना दूतयीयसे आत्वागमम् सन्तादिभिरसो अरिष्टकादिभिः रक्षम् ते भद्रमाभाषम्ब राजक्ष्मम् सुपापिते रायम् तामिह देवास्राजताम् मरुता गणः रायन्ताम् विश्वा भूता नियथायमरपा असत् आपयिद्वाबुभेषजीरापो अमी वचादनीः पः सर्वस्य भेषजी स्तास्ते रण्डुभेषजम् हस्ताभ्याम् दशाखाभ्याम् जिह्वा वाचः पूरो गवी अनामयतृभ्याम् त्वाताभ्याम् तोपस्पृशामसियम् सख्येषु वह्नजऋतम् मन् वानायाधर्जरुम् यत्रा दशस्यन् नृषो ऋणन्नभः कुत्साजमन्मन्नह्यश्च संसया अवादृप्रश्वस्वञ्जयो गिरीनुदा जुस्रा अवी मो मधुप्रियम् अबद्धयो वलिनो अस्य दंससादजातया र्यो मध्ये अमुचरथम् दिवो निलग्धासाय प्रतिमानमार्याः लालिविप्रोदसूरस्य मालिन इन्द्रोस्य च गृवादृष्टानि लिडिलो व्याः सन्विङ्गदेवामरणदया स्याः मा देवदूर्योदूर्यमादेवोङ्गा अयध्वदेनो विद्वा विभिन् दाद्रुज्यानियते इन्द्रः स वज्रादभिभेदभिस्नसहप्राग्रा मध्यम् दूरदाः लाजते कले कमकृयज्ञम् माताम् यानमदधा अधिज्य विद्वया विभिन्नम् भरति प्रतिम्बिता सूर्यरस्वृद पुरस्वाहविराज्योतिहृदयाजस्रम् तस्य भूढा प्रसवेयादिविद्वान् सम्पश्यन् विश्वाभुवानानि गोपा ऋक्षायेन वो मध्य आस्तावन् रोदसि अन्तरिक्षम् अपि श्वाचीरपि चक्षे भृताचीरन्तरापोर्वमपरञ्जहेतुम् रायो वृद्धः सङ्गमागोमधूनाम् विश्वारूपाधितश्चेतजीभिः देवजीवस पिता सत्यधर्मेन्द्रो नौ न वेधनानाम् विश्वासं सोमगन्धर्वमापोदृशीस्तदृन् तदन्वैरिन्द्रो रारहाणसाम् परिदूर्यस्य परिदीङ्ग्रामस्य विश्वावसुरभितन्नो गृणात् दिव्योगम् धर्मो रजासोऽपिमानाः यद्वाभासन्यमुदयन्न विद्मधियोन्मानोऽधिजयन्नो हव्याः नदी नाम तस्मिन् दच्छराणे नदीनामपावृणो अस्म्रजानाम् राधान्धर्वो अमृतानिव जलेन्द्रो लक्षम् कलीनादहीनाम् आगतवस्रमापयो महिभ्रायन्ते अत्रयो विभावसो ृहद्वाजा अन्नधातुरेकवे आपकवत्रा शुक्रवर्तानो नवजानुरीयर्णीवानुना पुत्रो मातराः वितरन्वा वजिभ्रहशिरोदशीबुभे जोरवाज्जादवेदस्वर्मन्दस्वीरिभर्भिरः पेरिरन्दर्भूरिभर्पदश्चित्रोदयो जो भावजाराः विरजन्मग्ने प्रथयस्व जन्तुभिरस्मेराजो अमर्ज सदर्शदस्य वपुरुषो विराजति वृणक्षीसा न सिंहम् संश्रम् संराधसो राजयम् वामस्य सुभगाम् महीमिषं दधासिता नं वयम् वानम् विश्वदर्मिम् संम्रायधिरे पुरोजनाः <Sess> शुक्रन्नम् स प्रथस्त्वमं त्वा वियुगा अग्ने वच्छावदेहनः प्रत्यग्नः सुमना भवणायच्छ बृहस्पदेहनादिनस्त्वम् वृणोयच्छत्वर्यवा प्रभ देवा श्रोदसूनृदा रायो देवी ददातु नः सोमम् राजा नमसेभिर्हवामहे आदित्यान्विष्टुम् सूर्यम् ब्रह्माणम् च बृहस्पतिम् इन्द्रवायो बृहस्पतिम् सुहवेह वामहे नः सर्वविरः सङ्गत्याम् असत् अर्यमणम् बृहस्पतिमिन्द्रम् दानाय चोदय पातम् वृष्टम् सरस्वतीनम् वरन्वग्ने अग्निभर्ब्रह्म यज्ञम् चावधय देवताः तजे देवताय राजोदानाय चोदय अयमग्ने चितात्मूलविदहद्रूनो नख्या अन्यतश्चाप्ययम् भाजि धर्मत्रिवरो समस्ती आदे इन्दा नाम परिज्यमाग्रेहि ग्ने वावि स्वाभुवानान्द्रे प्रतप्ता प्रदािनन्दनोदियः पुनश्च रन्दिपशुपाजीवत्मना पूरवा उपरि व्रणक्षिपप्सद्वोलग्नलभस्य स्वधावः उदचेल्या उर्वरा हेलिम् दवीषीम् च क्रुधाम यदुद्वतो निसत्कृसर्गेणप्रगतिनीवरेना यदा देवातो अनुपाति सोऽचर्वप्ते भस्मश्रूपसि प्रभूम त्यश्रेण यो ददृश्यजेकम् ध्यानम् बाहो रथायदग्देहनमन्वृजानोऽन्यम् वक्तानामन्वेषिभूमिम् वृत्ते सुष्माजिगता वृत्ते अतिरुक्ते अर्थे ताजाः ृच्छन्दस्वरि न मम गानात्वाद्य स वत्सदन्तु अवामिदन्ययनम् समुद्रस्य निवेशनम् अन्यम् कृण श्वेतः पन्त्वाम् तेन याहिमसा नु आयने ते पलाय ने श्च पुरी गाणि वद्रश्चि मे भद्रान्ना अपि वादयमनाः ॐ हरि ओन्द्रेव यदुरमर्थमस्वन्न गातवे पक्षीवम् त्वं युनारथम् न कृष्णुतो नवम् च्यञ्जिदस्वर्णवादिनामरेण भोजमत्रा दृढम् छिन्नविष्टधमत्रञ्जविष्ठमारजाः शिष्ठावभ्राशिषाः सतम् धियाः अधाम् दिवो न रापुनस्तो भो न विशसे चिते दग् सुराधसा राजः सुमधिरश्विना आजन्नः सदा ने समादेवर्षसो नरा युवम् भुज्यम् स मुद्र आरजस पारयीङ् खितम् जातमच्छाः पदत्रभर्णा सत्य सादये आवाम् सुम्नैः संयोजि भमम् ह्यष्टा विश्ववेधसा समस्ते भूडलन्न वोत्सन्नषाः अयम् हि ते अमध्ययिन् दुरत्यो न पच्यते दक्षो विश्वायुर्वेधसे अयमस्माधु काव्यर्भर्वज्रोदास्वदे अयम् विभर्त्यो द्वक्शनं कृत्यं मदम् गृणस्य कृत्वा न आदुष्वा सुवंसागः अवाधीदहेशुवाह यम् सु कर्णः पारावतस्येनस्य पुत्र आभारते सदचग्राः यन्ते तेनश्चारूपमृगम् पदाभरतरुणम् मानबन्धसः एनावयोविचार्याय जीवस ये नागारबन्धुता देवातरेन्द्रीन्द्रो जोभिधार्यायश्चक्रतोक्रत्वाय भस्मदा सु इमाङ् खनाम्योषधिम् विरुधम्भरवत्तमा या सपत्नीम् बाधते जयाः संविन्दते पतिम् उत्तानवर्णे सुभगे देवजूते सहस्वती समर्नीयम् मे पराधमपतिम् मे केवलम् कुरु उत्तरागमुत्तरमुत्तरे दुत्तराभ्यः तथा सपत्नीयाममाधरासाधराभ्यः अस्या नाम गृभ्या विनो अस्मिन् रामजे जने परामेव पदापतम् सपत्नीम् रमयामसि अहमस्वि सह मानाधी उभे सहस्पति भूत्वी सपत्नीम् मे सहा वहै उपजेधां सह मानामभिधां सहीयता ्रे मनोवत्सङ्गौरीव धावतु पथावारीव धावतु अरण्यान्य्यान्यसं याप्रेमस्य कथाग्रामन्न पृच्छसि नीरेव विन्दति वदते यदुपावदिकः दृश्यते रुदो हरण्यानि सायम् स घटिरेव सज्जति गा मङ्गैषाह्वयति रण्यान्याम्बले नवारण्यानिर्हम् यन्यस्तेगच्छति स्वादोः परस्य जग् यथा कामम् निपध्यते आञ्जनिम् सुरभिम् वह्वनामकृषीव वा मातरमरण्यानिम संसिषम् श्रे दधामित्रन्यमे हन्यद्वम् मर्यम् विभेदपः सुमेयत्वा भवतो रोदी अनुरेजाते सुष्मा पृथिवीरत्रिम ब्रह्मयालिनम् द्रवस्यतामनसामित्रमयः मालिनरो गृणते कविष्टिषुत्वाम् विश्वासु भव्या सृष्टिषु ऐषु च गन्धिपुरुभूतसूरिषु विधासो ये माघवन्नमरम् ेतराजे परिष्पेधावादिनमक्राजे धने सनु राजः सुभृतस्य चाकन्मरम् जोहश्चरम् शम् दिकेतति मघवन्ताश्वरो मक्षूसवाजम् भरते धनाधिः स्वम् दर्धाय महिलानाग्री नेधिमघवन् श्रद्धिराजः त्वन्नोहामित्रो वरुणो न माजीर्वितो ने विभक्ता शृष्वा नास इन्द्रस्तुमसित्वा सभाम् दर्शतुमिरङ्गभाजम् नो भरतु विदम् यस्य साकरातनाः सनुयामत्तो दाः विश्वस्तमिन्द्रजूरदातोसूर्येरख्याः वासि प्रस्रवनेन सोमम् र्यो भागिरो अभ्यर्थविद्वारेनाम् विस्तुमतिम् च का नः रे श्यामये रमजम् रसोमयी रेणो ददुभ्यम् रसो लभसै इमा ब्रह्मेनृदुभ्यम् शंशिराग्रद्भ्यो नृणांशूरसवाः भवसक्रदुर्येषु चारन्नुरत्रायस्वणरभुतस्तीन श्रुतीहवमिन्द्रसूरवृत्या पुदस्तावदेवेन आयस्ते योनिम् कृतवन्तमस्वाणिम्न निम्नैर्द्रभवन्तः सविता यन्त्रैः पृथिवीमारम्नाम्भरे सिता अस्वामिवादक्षध्वनि मन्दरिक्षमदूर्ते भद्वम् सिवादमुद्रम् यत्रा समुद्रश्च विवास्वस्य वेद आबुद्धिसंर्यावापृथिवि अप्रथेताम् अश्च मन्यत भवद्यज श्रममच्चस्य भुवनस्य भूमा सुवर्णो अङ्गदविदुर्गरत्वान् पूर्वो जातः स्वस्यानुधर्म ग्राम्यो योधिरिवाश्वान्तास्रेव वत्सं सुमनानुहा अधिरिवजायामभिनोऽन्ये दुधत्ता दिवत्सविदा विश्ववारः हिरण्यस्वस्सविसर्जसा त्वाङ्गिरसो जुह्वेवाजेः ोमस्येभाम् सम्प्रति जागराहम् समिद्धित् समिद्धते देवेभ्योहव्यवाहन आदित्यैरुद्रैर्वसोभिर्नागहि मृलिकाय नागहिमञ्जमिलम्बो युजुषा नुपागहि दत्वाधान हवामहे मृळिराज हवामहे वामो दादवे रसम् विश्ववाहारम् कृमे धिया अग्नेः देवाङ्गावाहन प्रियव्रतान्मृळिराजप्रियव्रतान् ग्निर्देवो देवानामभवत् पुरोहि सोऽग्निम् आर्यरे अग्निम् मो धनसातामहम् भो वे मृलीकम् धनसाधये अग्निरत्म् भरत्वा जङ्गविष्ठिरम् प्राहन्नः कण्वम् दशरसुमाहे ग्निम्बष्टारमरेही नः श्रधयाग्निः समिद्धरे श्रधया भूयते हमि श्रोधनिवयं श्रद्धे दियं श्रद्धे द्याः प्रियं भोजेषु यजस्वियम् आङ्गृधि देवासूरे श्रद्धामुद्रिरे एवम् भोजेष् यज स्वस्मागमुदितम् गृधि श्रद्धाम् देवायजमानापायुगोपामुभासते श्रद्धा हृदय्या अया श्रद्धया बिन्दसेवतु श्रद्धाम् प्रादर्भवामहे श्रद्धाम् मध्यन्ति परि श्रद्धाम् सूर्यश्च निमृति श्रद्धे श्रद्धा वजेहा मेधामजहङ्गीरतो मेधाम् भक्तयो दलुः मेधामिन्द्रस्वाग्निश्च मेधाम् दादा ददातुरे दा दा दा मेधाम् देवरो राजा मेधाम् देवी सरस्वती मेधाम् देवे अश्विनौ देवा बाधत्त्वाम्बुष्करस्रदा श्व मेधा अप्सरस्व गन्धर्वेषु जलन्मनाः देवी या मानुषी मेधा सा भामावि दतानिमा नुब्रुवे निशामदम् निशामहैमहि व्रतम् सह व्रत तु भूयासम् ब्रह्मणासङ्गमे महि शरीरम् मे विदर्शम् वाङ् ब्रह्मणानिर्से मेधाम् देवी मनसारेण मानाम् गन्धर्वजुष्टाम् प्रदीरो मह्यम् मेधाम्बदमह्यम् श्रयम् वद मेधाविभूयासमदराजकृष्णो सद सस्वतिमद्भूतम् प्रियमिन्द्रवान्यम् स्वनिम् मेधामजाम् जामेधाम् जा देवगढाण सोवासने स जामा मे धजा मे मेधाव्या अहम् सुमना सुप्रदीकः श्रद्धावाना सत्यवधिसुदेशेवाः महाजराधारयिष्ण प्रभक्ता भूया च भस्मैश्वरजा प्रयोगे सादचित्सा महानस्य मित्रघातो अद्भुतः न यस्य हन्न देशघातजीयदे कदाच स्तिना विशस्पतिर्व वि मृधो भसी मृषेन्द्रः पुरयेतुनः सोमवा भयङ्करः विरक्षो विमृधो जहि विभृत्रस्य हनूरुम्यमिन्द्रभृतहन्मित्रस्याभिलासतः विना इन्द्र मृधो जहि गीता यो अस्माभिधा सत्यधरङ्गमजातमाहेन्द्रद्विषरोः सरोवधम् विमन्यो शर्म यच्छवरीयो वधम् जीङ्कयम् दीरभस्युभजीन्द्रम् जातमुपासते वेदानासुवीर्यम् त्वमिन्द्रवदातधिसहसो जातवोजसः त्वम् ऋषन् वृषेरसि त्वमिन्द्राजग्रहाव्या अन्तरिक्षमनिरः उद्यावस्तभ्रावोजसा त्वमिन्द्रोजसभर्कम् बिभर्षि बाह्वोः वज्रंसितावोजसा स्वमिन्द्राभिभूर श्रीविश्वा जातान्योजसाभुवा भावः सोमजेकेभ्यः पवदृतमेकमुपासते एभ्यो मधुप्रधावतान् श्रीदेवाभि गच्छता तमसाये अनादृक्षास्तमसाये स्वर्जयोः पो येन क्लिरे महस्तान् श्रीदेवावी गच्छतान् ये युध्यन्ते प्रहरे शशूराः सोयेत नो चजाः ये वा सहस्रदक्षिणास्तादेवावी गच्छतात् ये चित्पूर्वार्दपहृता वा येन्दवस्वतोस्ति देवापि गच्छता सहस्रणीधाः कवयो ये गोपायन्तिपस्वतो गच्छता